श्रीमद्भागवतमहापुराणं पञ्चं स्कन्धम् अथ राहु आदि की स्थिति स्थितिः नीचे के लोको का वर्णन् श्रीशोकुवाच अधत्तासवितुर्यो जनायुते स्वर्भानुनक्षत्रवच्चरितेत्येके योसावमरत्वं गृहत्वं चालभत भगवन्मुकम्पया स्वयं सुरापसद सैहिके यो ह्यतरणं यतदर्हस्तस्य तात् जन्मकर्वाणि चोपरिष्टाद्वक्ष्यामः यदस्तरणैर्म प्रतपस्तद्भिस्तरतो योजनायुतमाचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं राहूर्ज पर्वणि तदं द्यवधानकृद्वैरानुबन्धसूर्यचन्द्रमशावपि धावती तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितम् अस्रं तत्तेजसादृशम्भो परिवर्तमानं अभ्यवस्थितो मुहूर्तम् उद्विजाम् उद्विजं मानचकितहृदय आराद्येव निवर्तते तदुपरागमिति वदन्ति लोकाः ततोधस्तासिद्धचारणविद्याधराणां सजनाली तावन्मात्र एव ततोध्यस्ताध्यक्षरक्षः अपि सा च प्रेतभूतगणानां विहाराजीरमन्तरक्षम् यावद्वायुः प्रभाति यावन्मेघा उपलभ्यन्ते ततो ध्वस्ताच्छतयोजनान्तर इयं पृथिवी यावध्वंसभासस्येन सुपर्णादयः पतत्रीप्रवरा उत्पतन्तीति उपवर्णितं भूमिर्यथा सन्निवेशावस्थानम् अवनेरप्यधस्तात् सप्तभुवि वरा एकैकसो एक योजनायुतान्तरेणायाम् अविस्तरं विस्तारेणोपक्लिब्दातलं वितलं शीतलं तलातलं महातलं रसातलं पातालमिति एतेषु हि बिलस्वर्गेषु सर्वाद्यव्यधिककामभोगैश्वर्यानन्दभूतिविभूतिभिः सुसमृद्धभवनोद्याना क्रीडविहारेषु सु दैत्यदानवकाद्रवेया नित्या प्रमुदितानुरक्तं कल कलत्रापद्यबन्धुसृहृदनुचरा गृहपदय ईश्वरादव्य प्रतिहत कामा माया विनोदा एषो नमाया मायापिनां निर्मिताह पुरो प्रवर विचित्र भवन प्राकार गोपुर नालामणिप्रवरप्रभेकं विरचितविचिद्रभवन प्राकारगोपुरसभाचैत्यचत्वारायतन्नादिभिः नागासुरमिथुनं पारावत शुक तारिकाकेण कृत्रिमभूमिभिर्विवरेश्वर गृहोत्तपैः समलङ्कृताश्च का सती उद्यानानि चातितरां मन इन्द्रियानन्दिभिः कुसुमफलस्तव कं सुभगं किशलयावन्नतरुञ्चिर विटप विटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुरं विविध ममलं विहङ्गमजलाशयानां मम जलपूर्णानां शशकुलोल्लङ्घन क्षुवित नीरनीरजकुमुदकुवदयकल्लार नीलोद्बलोहितशतभद्रादिं दिवनेषु कृतनिकेतनाम् एकविहारा कुलमधुरविधस्वनादिभिरिन्द्रियसवैः अमरलोकशियमती शैतानि यत्र वामनं भयमहोरात्रादिभिः कालविभागैरुपलक्ष्यते यत्र हि महाहि प्रवरशिरोमणय सर्वं तमप्रबाधन्ते न वा एते सुवसतां दिव्यौ सधीरं सरसायनान्नं पानस्नानादिभिराधयो व्याधयो बलिपलितं च रादयस्य देहवैर्मल्यं दुर्गन्ध्यस्वेदक्लमग्लानिरिते वयोवस्थाश्च